श्रीमद्भागवत् महापुराणम् महात्म्यम् तृतीयोऽध्यायः श्रोतुवाच विष्णुरातस्तु श्रुत्वा तदुद्धमम् प्रणतो ब्रवीत परीक्षितुवाच हरिदास त्वया कार्यम् श्रीमद्भागवत्कीर्तनम् आज्ञाप्योऽहम् यथा कार्यसहायोद्र मया तथा श्रुत्वाच श्रुत्वैतदुद्धवो वाक्यम् उवाच प्रीतमानस उद्धौ वाच श्रीकृष्णेन परित्यक्ते भूतले बलवान कलिः करिष्यते परं विघ्नं सत्कार्ये समुपस्थिते तस्माद्दिग्विजयं याहि कलिनिग्रहमाचर अहं तु मासमात्रेण वैष्णवीं प्रीतिमाशितः श्रीमद्भागवतास्वादं प्रचार्यं तत्सहायत एतान् सम्प्रापयिष्यामि नित्यधाम्नि मरुद्विष श्रोतुवाच श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयातुरः तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम् परीक्षि उवाच कलिं तु निग्रहीष्यामि तातते वचसि स्थितः श्रीमद्भागवतसम्प्राप्ते कथम् अम् भविष्यति अहं तु शमनुग्राह्य तव पादतले श्रुतः श्रोतुवाच श्रुत्वैतद्वचनं भूयोऽप्युद्धवस्तमुवाच उद्धौवाच राजश्चिन्तात् ते कापि नैव का कथञ्चन तवैव भगवशस्त्री यतो मुख्याधिकारिता एतावत्कालपर्यन्तम् प्रायो भागवतश्रुतेः वार्तामपि न जानन्ति मनुष्या कर्म तत्पराः तत्प्रसादेन बहवो मनुष्या भारताजिरे श्रीमद्भागवतप्राप्तौ सुखम् प्राप्यन्ति शाश्वतम् नन्दनन्दनरूपस्तु शेषको भगवानुषे श्रीमद्भागवतं तुभ्यं शाभेश्यत्यसंशयम् तेन प्राप्यसि राजस्त्वं नित्यं धामा व्रजेषितुः श्रीभागवतसञ्चारस्तुतो भवि भविष्यते तस्मात् त्वं गच्छ राजेन्द्रकलिनिग्रहमाचरशोतुवाच इत्युक्तस्तम् परिक्रम्या गतो राजा दिशां जये वज्रस्तु निजराज्येषं प्रतिबाहुं विधाय च तत्रैव मातृभिषाकम् तस्थो भागवताशयाम् अथ वृन्दावने माशम् गोवर्धनसमीपतः श्रीमद्भागवतास्वादतुद्धवेन प्रवर्तितः तस्मिन्नास्वाद्यमाने तु हरे लीला सर्वत कृष्ण एव च आत्मानं च तदन्तस्थं सर्वेऽपि दतिसुस्ततां वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोरुहे स्वात्मानं कृष्णमैधुर्यान्मुक्तस्तद्भूव्यशोभत ताश्च तन्मातरकृष्णे रासरात्रिप्रकाशिनीम् चन्द्रे कलाप्रभारूपम् आत्मानं व्यक्ष विस्मिताः स्वप्रेष्ठविरहाव्याधिर्विमुक्ताः स्वपदं ययुः येने च तत्र ते सर्वे नित्यलीलान्तरं गताः व्यावहारिकलोकेभ्यः सद्यो दर्शनमागताः गोवर्धन्यकुञ्जेषु गोसुवृन्दावनादिषु नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेम तत्परै श्रुतुवाच येतां भगवत्प्राप्तिं शृणुयाच्चापि कीर्तये तस्य वै भगवत्प्राप्तिर्दुःखहानिश्च जायते ते स्कन्धीस्कन्धे महापुराण एकाशीतिसहस्रायाम् संहितायां द्वितीये वैष्णव खण्डे परीक्षिदुद्धवसंवादे श्रीमद्भागवत्महात्म्ये तृतीयोऽध्यायः